मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं त्रि कामासुरराज्यप्राप्तिवर्णनम् श्रीगणेशाय नमः आदिशक्तिरुवाच जलन्धरस्वरूपेण आगतं तं जनार्दनम् नानावीरसमायुक्तं तादृशैः सेवकैर्वृतं नागरामानयामासुरन्ये सर्वे सुहृज्जनाः जित्वा महेश्वरं देवं तं समागतमब्रुवन् ततो गणेशमायाभिर्मोहिता तं समीपगा वृन्दा हर्षसमायुक्ता परमेश्वरं मोक्षितकेशवो देव्यस्तां दृष्ट्वा गुणसंयुतां रूपेण प्रतिमां पूर्णयौवनेन विराजितां एकान्ते सतया सार्धं रेमे नारायणस्वयं सापि स्नेहसमायुक्ता रेमे तेन सुविह्वला अधुना शङ्करस्यैव वृत्तान्तं कथयाम्यहं शृणुध्वं शक्रयः सर्व गणेशमाययायुधं शङ्करक्रोधसंयुक्तो युयुधे तेन वैरिणा चक्रेण छेदयामास दैत्यानां बलमुत्कटम् जलन्धरः स्वयम् तेन युयूधे यु माययायुधः राक्षस्य देवदा दैत्या युयूधुश्च यु परस्परम् वृन्दया सह विष्णुश्च रेमे तत्र मुदायुधः चक्रेण तस्मिन् काले हदो भवद ततस्ते देवविप्रेन्द्रास्तुष्टुवु शङ्करं परं तैः सार्धमगमत्सोऽपि कैलासं पर्वतेश्वरं ततश्च धर्मसंयुक्ता बभूवुर्मानवा ध्रुवं विश्वमानन्दसंयुक्तं बभूव स्वस्वकर्मतः नित्यं विष्णुस्तया सार्धं क्रीडायुक्तो बभूवः समागतास्तत्र दैत्या शशंसुश्चेष्टितं महदत् प्रतापवान् दैत्यो जलन्धरः तच्छ्रुत्वा विस्मिताः सर्वे कोयं क्रीडति चात्मानं स्वयं विष्णुः समास्थितः वृन्दादेहं समाज्वाल्य ययौ स्वर्गमनुत्तमम् तां दृष्ट्वा मोहसंयुक्तो विष्णुस्तत्र रुरोदः स्मृत्वा वृन्दाचरित्राणि मोहितो मायया भृशं वृन्दाचितां समाश्रित्य विललापजनार्दनः दैत्याः पादालगाः सर्वे बभूवुर्भयसंयुताः देवैः सम्बोधितो विष्णुर्मुनिभिर्न बुबोध सः रुरोद कामबाणार्तस्तां स्मृत्वा दारुणम् महद ततस्तस्य महाविष्णो काम बाणार्दितस्य च वीर्यम् पपाद भूपृष्टे तेजो तेजोयुदम् बभौ तस्माच्च पुरुषो जज्ञे कामरूपादिको बभौ विचचारमही पृष्ठे विष्णुस्तत्र समास्थितः ततो देवैश्च सा वृन्दा प्रार्थिता मुनिभिर्भृशम् विष्णोः पत्नी भवाशुत्वं तपःसाराधितस्य ते सा तथेदि समुच्चार्यभृक्षरूपा बभूवः विष्णुः शिलास्वरूपेणोपयेमे ताम् शुभावहां कार्तिके शुक्लपक्षे च द्वादश्यां सा जनार्दनम् उभये मे महादेव्यस्तेन संहर्षितो भवत तां ब्रिह्यकेशवो देवो विकुण्ठमगमत् स्वयं सर्वे हर्षसमयुक्ता बभूवुरमरादयः एवं कामः महातेजोयुधस्वयं बभ्राम वनसंस्थः तत्र शुक्रः समाययौ शिवपञ्चाक्षरं मन्त्रं ददौ तस्मै महात्मने स गत्वा प्रणम्यैव वनं तपश्चचारः तपःसोऽग्रेण शम्भुं स तोषयामास नित्यदा निराहारेण नित्यं जजापतं मन्दमुत्तमं एवं तस्योग्रतपसा विभ्रान्ता सुरमानुषाः दिव्यवर्षसहस्रेण स्थातुं शक्ता न ते भवन् ततो देवैर्महेशान प्रार्थितस्तं ययौ बोधयामा दैत्येशं वरं ब्रूहि समब्रवीद ततः दृष्ट्वा प्रणनाम कृताञ्जलिः समुद्धाय पुपूजासौ तुष्टुवे भक्रिसंयुधः यजुर्वेदभवेनैव रौद्रस्तोत्रेण शङ्करम् कामासुरप्रसन्नात्मा तोषयामासुष्टं शङ्करं दृष्ट्वा तं जगादमहासुरः हर्षेणोद्भुल्लनेत्रस्य वरदं भक्तवत्सलं कामासुर उवाच यदि प्रसन्नभावेन वरदोऽसि महेश्वर तव भक्तिं च मे देहि राज्यम् ब्रह्माण्डकस्य वै उत्पत्तिस्थितिसंहारयुतास्तेभ्यो भयम् न मे सम्भवेत्तादृशम् नाथ कुरुष्व बलसंयुधम् उत्पत्तिस्थितिसंहारकारका ये महेश्वराः तेभ्यो मे मरणम् नैव भवेद्देव तथा कुरु आरोग्यादिसमयुक्तं सङ्ग्रामे जयशालिनं कुरु देवदेवेश सर्वादिकं प्रभावदः यद्यदिच्छामि ततन्मे सफलं त्वदनुग्रहाद सर्वकालेषु भवदु नमस्ते परमेश्वर शक्रिरुवाच कामासुरस्य वाक्यं वै श्रुत्वा विस्मितमानसः शङ्करस्तमधोवाच तपसा बद्धभावदः शिव उवाच दुर्लभं यत्त्वया कामप्रार्थितं देवदुःखदं दास्यामि तपसा तुष्टो महोग्रेणासुरोत्तमम् त्वया ये सर्वे प्रार्थितास्ते महासुर सफलास्सन्धुमद्वाक्या त्वं श्रेष्ठश्च भविष्यसि एवमुक्त्वा महादैत्यमन्तर्धानमधाकरोद शिवसोऽपि महादेव्यो भवत्तत्रैव संस्थितः हर्षेण मम कदा युक्तो जगामशरणं शुक्रं सर्वविचारज्ञं स्वगुरुं प्रणनामः कथयामासवृत्तान्तं सोऽपि संहर्षितोऽभवद श्रुत्वा योगीन्द्रमुख्यश्च दैत्याचार्यो महायशाः महिषासुरपुत्रीं स उभये तृष्णां रूपयुतां पूर्णगुणयुक्तां च तादृशीं तदो दैत्यगुणान् सर्वान् समागतान् दिगन्तदः दैत्ये श्यांस्तान् पुरस्कृत्य शुक्रस्तं ह्यभ्यषेचयत् वेदमन्त्रैर्महाभागो ब्राह्मणैर्विधिसंयुधः कामासुरो भवद्राजश्रिया हृष्ठो विलासवान् पञ्चतस्य प्रधानानि बभूवुश्च महौजसः रावणशम्भरश्चैव महिषो बलिदुर्मदौ नगरं निर्ममे भूमौ सर्वशोभासमन्वितं रथितं नाम तस्यापि चकारोशनसेरितः तत्र जग्मुश्च वासार्थं दैत्यदानवराक्षसाः चादुर्वर्ण्यसमायुक्तं शुशुभे शोभया परम् ॐ तत्सदिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ओम्